मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सिक्स्टि टु विनायकचरितं श्रीगणेशाय नमः वृत्समद उवाच तदो विनायकस्तत्र काश्यां बालगणैः सह चिक्रीडप्राकृतो भूत्वा भक्तानन्दविवर्धनः तदो गणकरूपेण दैत्यो हेमासुरो ययौ तम् मायया गणेशानो मारयामास दैत्यपा। दैत्यप तदपूपासुरस्तत्र कन्दरेण सहा गदः परस्परविभेदेन तौ हदौ गणपेन च तदोऽम्भोसुरनामायः नामाय प्रतापीच। धाम् धः तुङ्गासुरस्त्रयः प्राप्ता ब्रह्म खगरूप खगरूपगणेशेन हदामुक्तिं प्रलेभिरे विनायकस्य हस्तस्य स्पर्शनादिप्रभावदः तेषां मादासमयादा भ्रमरी नाम राक्षसी रूपं कृत्वा ह्यदित्याश्च साहता तेन दैत्यपरीक्ष्य विस्मितास्तत्र मानवाभोजनार्थिनः निमन्त्र्य तं ययु सर्वे काशिराज समन्विताः यगस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः भोजनार्थं काश्यपश्य सामग्रीं चक्रिरे जनाः ततः शुक्लो महाभक्तकाशीप्रान्तनिवासकः शुक्लकृत्या चरद्भिक्षां प्रभो शुश्रावचेष्टितं शुक्लो दारिद्र्यसंयुक्तसन्तोषी भजनेरथः विद्रुमातस्य पत्नी सा पदिभक्तियुधाभवद सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवं भोजनार्थं काश्यपस्यमार्जितं स्वाङ्गणं तया दर्भान् बद्ध्वा महायष्ट्यां ध्वजं चक्रे महामुनिः सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं तण्डुलान्नं जलैर्युक्तं चक्रे परमहर्षिता प्रयत्नेनाल्पतैलं च शुक्ल आनयदादराद गृहे फलानि शुक्लस्य त्रीणि संचयमानतः, तण्डुलानां हि पिष्टस्याभवन् पञ्चफलानि च काश्यपश्य च भक्ष्यार्थं पाकञ्चक्रे च भावतः शुष्कामलकखण्डं सोऽस्थापयन्मुखशुद्धये नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरो भवत विनायकस्य शुक्लोऽपि महाभक््रिपरायणः एतस्मिन्नन्तरे तत्र सनकश्च सनन्दनः दर्शनार्थं समायादौ काश्यपस्य महात्मनः राज्ञा समानितौ विप्रौ दृष्ट्वा बालसमन्वितं विनायकं तथा तौ निर्भस्य गङ्गां प्रजग्मधुः विनायको ययौ बालै शुक्रस्यादौ गृहं प्रदी कुत्सितान्नं बभक्षैव ददौ सम्पत्तिमुत्तमां तदो विनायको देवो देवोऽनन्दरूपधरस्वयं स काशीराज प्राप्य गेहे गेहे बभक्षसः एतस्मिन् समये तौ तं सनकश्च सनन्तनः भिक्षार्थं वै ददृश्यदु पर्यटन्तौ गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुदं मुनि त्यक्त्वा काशीं क्षुधा युक्तौ जग्मदुर्बहिरेवतौ ततो विनायकेनैव सर्वं रूपं प्रदर्शितं पुनस्थौ शरणं भ्रान्ता वेवतं जग्मदुर्हृदा तदो गाणे ज्ञानं दत्तं तेन महात्मना गाणपत्यस्वभावेन चेरतुस्थौ गदौ तदः काशीराजेन तत्सर्वं न ज्ञातं चेष्टितं महद भ्रान्दो राजा सदं नेदुं ययौ शुक्लगृहं मुदा शिबिकायाम् गणेशं संस्थापयित्वा ययौ नृपः स्वगृहं तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः विनायकेन तौ त्यक्तौ चिखां सन्तृत्य दैत्यपौ प्रजग्मधुस्ववृत्तान्तं कथयित्वा नरान्तकम् राजापि स्वगृहम् प्राप तदो दैत्यसमायययौ श्रुत्वा वृत्तान्तमत्यन्तम् ताभ्याम् सर्वम् नरान्तकः गुल्मस्ता गुल्मस्तानगरद्वारि काशिराजं व्ययुर्जनाः अवदन् दैत्यवृत्तान्तम् नरान्तक उपागतः सन्नद्ध काशिराजः सदं व्ययौ युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ततो विनायकक्रुद्धसिद्धिमाज्ञापयत्प्रभुः तया सृष्टं महासैन्यं कालरूपं च तद्बभौ तत्रैकोनायक क्रूरप्रणम्य गणनायकं ययौ तस्य महासेनां भक्षयन् पश्यधः क्षणाद धृत्वा नरान्तकं सोऽपि जगाम च विनायकं विनायकेन सैन्येषो मुखे लीनः तस्योदरे गणेशेन रक्षितः काशिपालकः तेन सार्धं गणेशस्य देहे लीनोऽभवन् नृपः तं नृपं जठरे देवो दर्शयित्वा जगत्पुनः रोमं मार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमं विस्मितं माययातं स मोहितं प्रचकारः तद्दृष्ट्वा दैत्यराज स विस्मितो तर्कयत् स्वयम् अयम् ब्रह्ममयो देवः कस्य वा आत्मज एव च अस्य हस्तेन मे मृत्युर्भविता चेत् सुमङ्गलम् ब्रह्म भूयपरं तस्माद्युध्येयं हर्षसंयुधः नरान्तकेन कृत्वा च युद्धं तेन महत्तदः मोहयित्वा तं जघानविराड्रूपेण विघ्नपः ममारदैत्यराजस्तु मस्तकस्तस्य वै गृहे पतितस्तं विलोक्यैव शुशोच जननीपिता शिरोद्धृत्वा गदौ स्वर्गे दृष्ट्वा देवान्तको सोऽपि क्रोधसमायुक्तो ययौ दैत्यपः कृत्वा युग्धं महाकोरं तेन विनायकः गजाननस्वरूपं च दर्शयामास शत्रवे दृष्ट्वा दैत्येन दन्तस्तु भग्नो वामोऽस्य तत्क्षणाद दैत्येन्द्रं तेन मारयामास विघ्नपः ततो हर्षयुतैर्देवस्तुतो देवर्षिभिः प्रभुः प्रविवेश्य नृपेणासौ काशीं भक्तपरायणः राजपुत्रस्य देवेशो विवाहं च चकारः राज्ञा सम्पूजितो तदो लोका ततो लोकामहाभक्तास्त्यक्त्वा देहादिकं येयुः तेभ्यो ज्ञानं ददौ देवः शान्तिम् प्राप्ता राज्ञारधेन शिखरं वै स जगामः काशीराज्यं च काश्याम प्रेषयद्गणनायकः लोकैर्नृपो धुण्डिराजं स्थापयामास वै पुरे नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः भूभारहरणार्थं च जादौहं युवयो सुतः तच्च सर्वं कृतं कर्माधुनायामि निजं पुरं युक्त्वा ददौ ताभ्यां ज्ञानं सौन्दर्हितो भवत ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता विनायके दिनाम्ना सा विख्यादा प्रबभूवः प्रह्लाद काशीराजोऽपि मुद्गलस्योपदेशतः स देहः स सर्वं विनायकचरित्रकं सङ्क्षेपेण महाभाग यकदन्तावतारजं शृणु याद्यपडेद्वापि स ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एक ये कदन्तचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ओम्